गणानाम् त्वा गणपैजिग् हवामहे प्रियाणाम् त्वा विजपैजिग् हवामहे विधीनाम् त्वा विधिपतिग्हवामहे वसो ओ पुण्याः वाचन जपः ञ्च देवानाञ्च विदुः सर्वमायुप्रमाणेन तीर्घमायुधत्तु अपारम् मध्ये स्विता देवामस्वप्रचक्षितम् ब्राह्मणानान्तरे मुक्ता शिवा आपशन्तु ब्रह्मापान्तु सोमम् सत्यग्मिश्रीमदत्तु पुत्रे श्रियश्च तेजश्च सौमासत्त्वम् च नित्यशः पुष्पे फलम् ध्रुवम् पुष्पाणि पान्तु अक्षता पुेया अविष्टन्तु महेश्वरः महत्तद्विष्णुरम् युक्तम् अक्षतम् ब्रह्मणस्पतिम् अक्षताः पान्तु तो मनसयनस्तु विध्यानियामवायमानो मन्त्रम् सदथेहोपायातम् यशो पक्वम् मधुरोष्वन्तराभूतां सोः अश्विनो कामामप्राः विरविनोदारेण सुरश्च द्रविणोदासुरारश्च प्रलयम् तहे विविणोदा वीरवाकीविटम् नो द्रविनोदारा आसते दीर्घमायोः दिव्यन्दया पतन्तिोद्भवन्ति मे अप्याकाम्यानि जरेष्टो नव्यशुजाता दीर्घमायुः कविता पश्चाताह सविता सुरस्ताह सवितोत्तराः सविताधरात्ता कवितानस्तु पतु सर्वदाीर्घमायुः नरो नवो भवति जायमानोन्हान् केतुर्भसा नेत्यग्रयम् चन्द्रमाः स्थिरीयद्धमायोः इन्द्राः वरुणाथो मनसमदत्तम् राजस्को विजामानेशुभत्तम् प्रजाम् तत्म् भोरोति मत्मातो धस्तम् देयद्धायुक्ताय प्रतीरतम् मायुः कथमिन्दाज्ञे च वितापिषत्पतिश्च आयुषा अभिषेकम् पुनः गुरु आहारम् तावीकम् त्वा पुनराजाः पुनर्नवा सर्वारम्भर्वम् दे चक्षः सर्वमायुश्चायित्वायुगरायवच्च सुप्रजास्त्वाय चातो शतस्मै नो वचे दधा भा वामस्तुतः पुमान् पुत्रो जारायते इन्द्रते वस्तुधाः विश्वाहाः रकयेधते गृहे राजा नमराजेग्मन्वाराधामहे आदित्यम् विष्णुग्रहसोदयम् ब्रह्माणम् च दृहस्कतिम् अग्नेयभ्यावत्तिन्नभिमानवत्तस्तायुषाच्च प्रधने अन्यामेधया आ्यापोषेण अग्नेयप्रेः प्रथमो देव यताञ्चक्षद्देवाना ऋतमत्यानाम् विलक्षमाणाभिगोभिः सुजोषा स्वर्णेयम् तु यजामाना स्वस्ति रामच्चलिङ्गा ब्रह्मा देवोऽ सचेले तसो विश्वेरे देवायिज्ञम् प्राम् पुनः सुभे अङ्गान्यात् सन्भृजा तस्विनात्माङ्गे समाधात् सरस्वती इन्द्रश्च रूपग्रेशतमाहमायुश्चन्द्रेण ज्योतिरन्द सरस्वती योग्याम् गर्भ्यान्तरस्य भ्याम् भक्ति सुप्रेतम् विभर्धि नसाम्येन्द्रज्ञश्रियै जनयम् मतृराजाः एजः प्रसूनाज्ञहारपरिसुतामयशासारकम् मधु अश्यभ्यानम् दुग्धम् विषजासरस्तभ्यामतस्तो मयिन्दुः ्रम्प्रषाणम् मज्जाम् वतिष्ठासो अभ्यच्चम् चक्रैः तदा स्तुतो दीरवद्धा दुगो मद्यूयम् पाः तस्वस्तिभिः सदा नुत्रामाहानम् पृथिवीयम् जामानेहसज्ञमाहानमदेशप्रणीतिम्नावग्रस्वरित्राकसमस्रावम् कीवारू सुनावमारूहे यमस्रावम् जीवनाहागसम् तारित्राग्रस्वस्तयेणी रामेणः पर्जन्यामर्षसुफलावत्यो नघोषाशयः पक्ष्यन्ताम् योगक्षेमो नः कल्पताम् अदीगत्यौरदीतिरन्तरिक्षमदीतिम् मातासपिता स पुत्रः विश्वे देवा अदीतिः पञ्चजना अदीत जातमदीतज्जनित्वम् आमानिभ्यः श्वचिने भुरग्भरग्रेदाहर्षिणे भिकायाभिम् वायो अस्मिन् सवानेवादयस्वूयम् पादस्वस्तिभिः स्वदानः यात्रातो दूरमुदैभिदैवम् ततो सुप्तस्य तथैव इति दूरङ्गम् ज्योतिषाम् ज्योतेकन्तम् मेमनः शिवसङ्कल्पमस्तु आयुष्यम् वत्यश्च ग्रे राजस्व समोद्भेदम् इदद्वैषण्यं वक्त्रस्वद्य प्रायावीशता गुमा ब्रह्माणः पतेत्तमस्य जिन्ता सूक्तस्यारोधितनायन्त्यजिन्वा निभद्रयन्ति दे देवाभिभद्वा जयमेव वीराः श्रीशे लक्ष्मीश्च पत्न्या होरात्रे पात्रे रक्षत्राणि रूपमस्ति नौव्यात्तम् न्येषा नामम् मायिषा सर्वलोकम् मायिषा यत्र ब्रह्मा च क्षत्रम् च धन्यम् च उचरातः सः तल्लोकम् पुण्यम् प्रज्ञेशयत्रा देवाः सहात्मिना स्वस्ति स्वस्ति नस्ताक्ष अधिक्रयणे स्वस्ति न विहस्पतिर्दधातु ब्रह्मराज्य अभ्याग्रे भूत्कायकार्यायत स्वायुचारायणायता प्रियो देवानाम् रक्षेणाय दातु जातमजम्मेकामस्वभ्यतामुतामादो नाम तु त्वमात्मेत्युभिस्तमासुक्षणित्वमभ्यस्तमस्मानत्वरी ब्रह्मनेभ्यत्वमोषादिभ्यत्वनृणान्द्रपतेजाय सेशुतीः जनस्य गोपाः जने अजाग्रे विरग्निः सुदक्षस्तुमिताय नव्यसे घृतप्रातीको गृहतादिविः विमर्विभाेभ्यस्तुतीः भूष्टाः जघुवत्तान भूमर्जयदधातना महेरणाः विदक्षसे योगश्रुरता मोढस्रस्य धादय लेहनाः ृतीरेव मातराः अस्माकम् गमामभोजस्य क्षयाः यजिङ्गाथा आपो जनयदा जनः पयः पृथिव्याम् पयवोधापय ओदिव्यन्तरि त्रेपय ओधाः पयश्व दे प्रतिशसन्तु मह्यम् विष्णो रवा श्रीविष्णो स्म प्रेयस्थ विष्णो स्यूरा श्रिविष्णोध्रुवोऽसि वैष्णवमादिविदेवता अग्निर्देवता मातो देवता सूर्यो देवताः चन्द्रमाः देवताः असा नो देवताः विद्या देवताः आदित्या देवता मन्त्रो देवता विश्वे देवा देवता बृहस्पतिर्देवता इन्द्रो देवतावरु नो देवता न्द्रघोष तावतो विप्रश्चास्तात् प्रदेतास्ताद्वय पश्चात्पात् मनमाजवास्वादिगद्दक्षिणतप्पात् विश्वगन्धात्वा विरुत्तरतप्पात् योश्रान्तिरन्तरिक्षग्रे शान्तिः पृथिवीशान्तिराशान्तिरोषादिगः शान्तिः वनस्पतादिश्रान्ति शान्तिरेव शान्तिः पावको अस्मभ्यग्रे शिवोभावात् सर्वादिष्टशान्तिरस्तु समस्तमङ्गलाप्राप्तिरस्तु अग्ने गृहपते तु बृहपतिरहन्तया गृहवत्या भूयासम् सु गृहपतित्वम् मया गृहवत्या भूयाः अस्तो विमोदागृहवत्यानि सन्तु शतज्ञमाः तिग्मेन हस्ते च सासज्ञशेषाभितोमन्दाभक्ते अग्ने गृहपते विद्युम्नमभितः आयच्छस्व रामाभितमादे भ्रमोऽध्यम् बिभ्रतये मासि ओध्यम् बिभ्रध्वस्तुमहास्वमेधागृहाणि मनसा नोदमानः भ्येति त्वमसन्नेशो सोमनतो बहुप्रयामायानन्दरा नोगराय शगाल उपाहूताजामजाः अतो अन्तपाहूतो गृहेषू नः हे नामाय वशान्तिः प्रपध्ये शिवद्गे सत्मग्रे शय्याय्योः आयुजे त्वा रक्षाये विषये त्वा क्षेमा यत्ता इषेत्वा जेत्ताेत्ता दोषायत्ता शुभे शुभाम् अथ सूर्यसूक्तम् इप्ता गृहद्देव सौम्यम् मध्वायुक्तवता अविकृतम् पातजूतो यो अभिरक्षयत्मना प्रजाभूपोटपुरुधाविदातिम् जातवेदसम् देवम् वरहन्ति हेतवाः दिशे विश्वाः यसूर्यम् येनाः पावपचक्षसा भुरण्यम् सञ्च मारुणपश्यसि येन अध्वर्योपाकेदसे तेन सूर्यत्वच मध्वा आदिभ्ये नमञ्जाते तम् रत्नथायम् वेनश्चो देवानाम् आहिला आबन्वितचेयेषु षष्ठिविश्वानारः सविता देवयेतु अपि यथा आयुवा नो मत्साधानो विश्वन्यगदभिद्वेव यदज्जगच्चवन्मुदगाभिसूर्या सर्वम् पलिन्दतेर्विष्पर्वसुतोद्योतिष्कृतातिसूर्या निष्पमाभातिलोचनम् तत्सोर्यस्य देवत्वम् तन्माभिक्तम् मध्याकर्तोऽता तग्रहञ्जाभारा यदेतयुक्तहलितस्य धस्तादाद्राद्रैवातस्वनुते किमस्मी तन्नित्तस्य वरुणस्याभिचक्षे सूर्यो रूपम् क्रेते ज्योरूपस्ते अनन्तमन्यद्विषयस्य वाचकृष्णः अन्यद्धरितः सन्धारन्ति मन् काचिशून्यबलादित्यमहाम् असि महत्तेः ततो माहिमापाकस्य देवर्थादेव महाम् असि बत्सोर्यश्च महाम् काशिसत्रादे एव महाम् असि मह् देवाना सुः पुरोगी गो विभृद्यो च ददाभ्यम् र्यम् विश्वे लिङ्गस्य भक्षता असूनि आदे जनामा नवोज प्राकृतिभागुम्बीधिमा अद्यादे वासूर्यस्य निरग्रहः सत्भृता निरवद्यात् तन्नामा मित्रो वा मामहामती सिन्धुदिरीकृतद्योः कृष्णे नरत तावत्ता मानानि वेशयन् नमसम्मत्यम् च निरण्येन स वितारसेना देवो याः विभुरा पश्यन् उद्वयम् तमा सत्वरिष्वपश्यन्तमुत्तरम् देवन्दे भक्त्रादोर्यमयम् मज्योतीरुत्तमम् अतिर्श्रमस्य गेतगोभिरश्मयोजना अनु भ्राजन्तो अग्नयो यथा वयामदीतो शिसूवर्याःत्ताभ्याजयेष तेजो विसूर्यायत्ताभ्याजे तूर्यभ्राजस्वम् राजस्वाभ्यस्त्वम् देवेष्वसि भ्राजस्वानहम् वा निष्केलेषु भूयातम् उदुत्यम् जातवेदसम् देवम् वा हन्ति केतवाः दिशेष्वायसूर्यम् सजामग्रीहीतो सूर्याः यत्त्वाभ्राजयेतेयो निःसूर्याः यत्त्वाभ्याजे तूर्यभ्राजस्वम् भ्राजस्वाभ्यस्त्वम् देवेष्वसि राजस्वा महम्माभिक्षेयेषु भूयातम् चित्रम् देवानामुदादनी कण्ठक्रम् निस्य वरुणस्याग्नेः आप्रात्यावा पृथिवी अन्तरिक्षूरया आत्मा जगतस्तस्पुषश्चयावग्रीहीतो सूर्यायत्ताभ्याजयेष जयो निसूर्याः र्यभ्राजस्वम् राजस्वाभ्युस्तम् देवेश्वसि राजस्वामहम्मासम् तयक्षसद्भोता आवेदिषीषद्गुरोरसत् नृषद्वारसत् तसद्यो सद्या गोजाति प्रजातम् बृहते तचक्षुद्देवहीतम् पुरस्ता शुक्रमुच्चराति पश्येम शरदशीयेम शरदशतलव्ये शृणुयाम शरदशतम् मत्यम् च इरण्पश्यन् मगे रामहेतुवन्द्यम् पुष्ट्यवर्धानम् पूर्वाधिकमेव बन्धानान् मृत्योन्मुक्षीयमामृता अग्नेन यताः राजे अस्मान्विषाः देववयुनानि विद्वान् यो ध्यस्मज्जोः राणमेनो भूयिष्ठाम् ते न मामुक्तिम् विधेमान्दे वाहतवत्नज्ञ गोबद्धम् महते क्षत्नाय महते ज्येष्ठाय इम ममुष्या पुत्र ममुष्यात् पुत्रमस्यै विषये एतवः पुरगोरादेशवः पञ्चाला राजाः सोमोऽस्माकम् ब्राह्मणानाज्ञ श्रीश्च श्रीलक्ष्मीश्च पत्न्याः महोदात्रे वाश्वे नक्षत्राणि रूपमश्विनौव्यात्तम् कृष्णन्येषा नामम् मायिषा सर्वलोकम् मायिषानात्तान ऊर्जेदभाजः महेरणाः यतक्षरम् कृपुत्पतिपृथिम्जायम् अपाग्ररयताग्रुजिन्वती यदम् दप्रतम् जाय मानवद्यम् समुद्राकृतवापुरीशात् येनस्य रक्षाः ऋणस्य बाहूः वस्तुत्यम् मही जातम् ते अर्वन् भूम्याः आपूलालभरेऽन्तरिक्षाय मात्रान् विवेकसान् दिग्भो े प्रतीजागृहितमिष्टा भूवत्ते सज्ञता वयम् च अस्मिन् सधस्थे अद्वृत्तरस्मिन् विश्वे वायुजमानश्च सीतता वीर्या लिप्तवो दय्यपार्थी वायु ममेरजाग्नि यो हस्ते वायुधृत्ताग्नधस्तम् वितक्षमाणस्ते धोरु वायो कृष्णो विष्णोऽस्यो राजकृष्णोद्भवोसि कृष्णो माधकृष्णवे बृहत्पदे अवीरन्यो अर्भामद्युभाधिकृतो मज्जनेषु यद्धीत यच्छ वा शरतप्रजातदस्मासु द्रवीडन्देहि चित्रम् आब्रह्मन् ब्राह्मणो ब्रह्म वर्तते जायता माष्ट्रे राजन्याः ्या भीमाःताम् पश्चादिन्द्रः पुरस्तादिन्द्रो अस्माः इन्द्रिखाग्नसतान्मनाग्नोचीनाम् यस्य ता परिश्रुतारकम् ब्रह्मणा व्याक्षत्रम् पयस्वामिन्द्रजावाचिः हृदयगासत्यमिन्द्रियम् निपानव्यसुप्रबन्धत इन्द्रस्येन्द्रियमिदम् वयोमृतम् मधु इन्द्रगाणा मदस्तिस्वान् विमवृद्धः विद्वान् जहिशत्रो गर्वमृदस्तायन्दृणिः विश्वतो नरः पश्यमानाविषा न पत्नीः बाणो देवेरभितविश्रायन्ताग्रसुवीराः वीरम् प्रतामानामहोभिः देवेरभिष्टाय ीतये श्रीयोरविश्वारः महायत्वायत्वादूर्यस्य त्वातपाते देवस्तामद्वारा पृथिव्याः सर्गस्तुरस्पाहि अद्यराशि शोचराशि ते प्रजापदे न देतान्यो विश्वाः जाताः भूव यत्रास्ते धुमस्तन्नो अस्तु वयज्ञस्यात्मनयोरजीनाम् ृहस्पति एवानो दूरत्वे प्रतानुसहस्रेण काशीरसि समुद्रस्य प्राक्षित्या उन्नयामि समापो अभ्यग्मदसमोदधीभिः नमास्तु सर्पेभ्यो ये वेदाीमनो ये अन्तरिक्षे ये निमितेभ्यः सर्पेभ्यो नमः बृह्मन्ना केतवेपे मर्या अपेशे स्वस्तिते बालमाशीया स्वागता स्मृषीणाभ्यस्तुतेन ब्रह्माजिज्ञानम् प्रातमम् पुरस्ताद्विषी मतस्तुरुजो वेनावः समृद्ध्याम् प्रमाणश्च पिष्ठा सतस्तयो निमतश्च विवाहः श्रीश्च लक्ष्मी सर्वमहो रात्रे वात्रे नक्षत्राणि रूपमस्ति संव्यातम् एषानाम् सर्वलोकम् मा युषा इन्द्रः पश्चादिन्द्रः पुरस्तादिन्द्रो अस्मादिष्कटाः इन्द्रो शिखाद्य सता शिविषुचीनाद्यस्य तादिना अज्ञे तव देववायुभन्मभो नाम रक्षतन्वश्च वन्द्या दाता लोकस्य तन एवारामस्य नियमेषज्ञ रक्षावानस्तवृते सुखमनुवन्धाम् प्रविसन्मये हि ज्योतिष्मधे हिदन्नायुः अवैतमुच्चन्नाद्वै वस्वतो नो अभयम् कृणोतु असन्वन्तच्छस्तेनस्तेत्यावन्मीः नमस्कारस्य अन्यवस्मरिच्चसा च इत्या नमो देविनिर्वेतुभ्या वस्तुयाम्यब्रह्मा वन्दामानस्तदा सास्ते चद्भिः अहेरमानो वर्णे अभोद्योज्यमानाविक्रमो ही नियुद्धिस्वतिने विरद्गरग्रेधा अश्रिणी दुर्वायाभियज्ञम् पायो अस्मिन् सदा यमादेस्तु यूयम् पारतस्वस्तिभिस्तदानः तव मनस्तनोविद्रातः प्रजावन्तस्तु चे महि ममीषाः जगातस्तस्तु षष्टम् धियम् जिल्मवासे भूमहे वयम् ऊषा न वयसा वेदधामसद्विधे रक्षिता वायुव लब्धस्वस्तयेः यस्य गेशा देऽस्तु मते धानि वज्रयन्तास्मान्तु देवाः क्यो नापृथिविनो भवानक्षरा निवेशानि यच्छाः नः सर्मा वत्प्रथाः विश्वतश्चक्षुरुतविश्वतो विश्वतो बाहुतविश्वतस्त्वात् भ्याम् तमाभिसम्पदत्रीत्या वा भूमिः जनयम् देवयेताः इदम् विश्वर्वितक्रमे एतानिदेवदम् समूढमस्य माद्यधुरे स्वाहा अक्षत्रेभ्यस्वाहा क्षत्रियेभ्यस्वाहा रात्रेभ्यस्वाहा धमासेभ्यस्वाहा शिवसङ्कल्पः ओम् यज्जाग्रहतो दूरमुदैति दैवम् तदु सुप्तस्य तथैव इति दूरङ्गमम् ज्योतीषाम् ज्योतिरेकन्तम् मे मनः शिवसङ्कल्पमस्तु येन कर्माण्यपशो मनीषिणो यज्ञे गृह्ण्वन्ति विदधेषु धीराणाः यद पूर्वम् यक्षमन्तः प्रजानान्तम् मे मनः शिवसङ्कल्पमस्तु यत्प्रज्ञानमितचेतोधितिश्च यद्योतिरन्तरमतम् प्रजासु यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु येनेदम् भूतम् सर्वम् येन यज्ञस्तायते सप्तहो ता तम् मे मनः शिवसङ्कल्पमस्तु यस्मिन् ऋजस्ता मयुजोग्नेषि यस्मिन्प्रतिष्ठिता रथ नाभावि बाधाः यस्मिज्ञश्चित्तज्ञे सर्वमो तम् प्रजानाम् तन्मे मनः ीषुभिर्वाजिन इवाम् ऋतिष्ठञ्जम् यदिष्ठन् सन्मे मनः शिवसङ्कल्पमस्तु अथ श्रीसूक्तम् ओम् हिरण्यवर्णाम् हरणीषुवर्मदजदस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावहा ताम् महारातवेदो लक्ष्मीमतमगामिनीम् यस्याम् हिरण्यम् विद्ये जङ्गामस्तम् पुरुषाः अश्वपोर्वाम् तथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवे भक्मये श्रेन्मादेवे ताम् स्वस्मिताम् हिरण्यप्रागारात्राम् जलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णान् त्वामिहोपह्वजे श्रियम् चन्द्राम्रभासाये साजन्त्ये श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिणी शरणमहम् प्रपद्येऽन्येणश्च ताम् त्वाम् वृणे आदित्यवर्णे च पशोदिता चोपनस्पति तव वृक्षोथबिन्दः तस्य फलानि च पदानुदन्तुमाजान्तराजाश्च बाह्यापलक्ष्मीः ैमाम् देवधः कीर्तिश्च मणिनाथः राजभूतोऽस्मि राज्येऽस्मिन् कीर्तिमर्भ्यन्ददातु मे क्षुप्वासाफलान् ज्येक्षामलक्ष्मीन्नाशयाम्यहम् अभूतिमसमभ्यम् च सर्वान्यर्मतमे गृहात्तालान्दराधर्षान् विद्रवत्ताङ्गरीहिणीम् ईश्वरीहुम् कामहाकोतिम् प्राचत्यमधीमही वसूनाम् गुरुभवनश्च मयश्रीश्रयताञ्जसः कर्तमेण प्रजाभूता वेदम् भवकर्तमा श्रियम् वादय मे कुले मातरम् पत्ममालिनीसिद्धामिक्लीतपस मे गृहे निजे मातरम् श्रियम् वाजय मे कुले आद्रा पुष्करिणी पुष्टिम् सुवर्णाम् सूर्याञरण्मयेम् लक्ष्मीम् जातवेदो महावः आद्राणि यः करिणी यष्टिम् पिङ्गलाम् पद्ममालिनी चलन्द्राम् जरण्मयेम् लक्ष्मीम् जातवेदो महावः ताम् महाभः जातवेदो लक्ष्मीमरुदामिनी यस्याम् हिरण्यम् प्रभु गङ्गामोदास्यो स्वामि विन्देयम् वरुणाहम् यद्विचिप्रयतो भूत्वा भूयादाद्यमन्वहम् श्रियः पञ्चदशस्पञ्च श्रीकामश्च पञ्चवेत् पद्माधने पद्मभूपद्माक्षे रत्मसम्भवे त्वम्माम् पजस्तपद्माक्षे एण सौख्यम् लभाम्यहम् अश्वरायी गोधायी धनदायी महाधने धनम् मे जताम् देवी नरपकामार्थसिद्धये पुत्रभोत्रधनम् नान्यम् मत्यस्वादिगवेरथम् प्रजानाम् भवति माता आयुष्मन्तम् करोतमा चन्द्राम् लक्ष्मीमीशानाम् सूर्याभाम् श्रियमीश्वरी चन्द्रसूर्याघ्यवन्नाभाम् महालक्ष्मी उपात्महे धनः म्यर्थनम् वा युद्धनम् सूर्योधनम् वसुः धनमिन्द्रो बृहत्परिर्वन्धनमश्मते वैनते यशोमम् पिबसोमम् पिबति पुत्रः स्व मन्थनस्य सोभिनो चन्ददातु सोभिनी न क्रोधो नमात्सर्यम् नवो नासु भामतिः भव्यानाम् भक्ताम् भीतोक्तम् जगेन्दः परिणन्तुवि महाबलिः मोहो अप्रस्य पिताः रोहम् तु सर्वादियान् स्व्रह्मत्यशोदिः पद्मप्रिये पद्मनिवत्महत्ते पद्मालये रत्नसमायदाक्षी विष्णप्रिये विष्णमनोनुभूले त्वदपत्मम् मै सन्विधत्वा महादेव्यै च विद्महे विष्णरत्ने च धीमहि सन्मा लक्ष्मी प्रचोदयाः यासा पद्मासमस्ताये वत्मवत्रा यदाक्षे गम्भे यदा वर्तनाभिस्तनभजनमिता स्थवत्रोत्तरीया लक्ष्मी दिव्ये जले अङ्गे मणिगनघटिते स्मापिता हेमकुम्भैः नित्यम् प्रापद्महुक्ता मम वसुगृहे सर्वमाङ्गल्ययुक्तालक्ष्मीजयलक्ष्मी सरस्वतीमीश्च प्रसन्नाभव सर्वदा परान्तीजमुद्राम् करैर्वहन्ति कमलासनस्थाम् बालार्थकोलिप्रतिमान्तरे ब्राह्मणे मात्याम् जगदीश्वरीन्द्राम् सर्वाङ्गलाङ्गल्ये शिवे सर्वाक्षताधिके शरण्येत्यम् वकेदे नारायणी न मास्तु निे वसुन्दम् दृतात्यग्निः न्नाम् तव साध्यनन्दीम् वैरवजनीम् कर्मफले नमिष्टाम् दुर्गाम् देवीहुम् धर्ममहम् प्रवत्ते सुतरपितले नमः अग्ने त्वम् पादजानव्य अस्मान् स्वस्ति हरितदुग्नि विश्वाः उत्रवृत्ते पुराणपुर्वीभवा लोकायतनजायजनयोः विश्वानिनो दुर्भ्यः जातवेदस्मिन् दग्ननावादितादिवर्षि अग्नेरन्मनसा विनो स्वाकुम्भोद्यनाग्नमग्निवमानि साक्षामेव यत्वात्मभ्यम् चोपगमाय दत्त्वा स्वन्दवेन्द्रित् नागत्रविष्ट्रमभिन् लो हमाजयताय विद्महे कन्यकुमारि धीमहि तन्नो दुग्जौ सोक्तम् सूक्तम् आभूषा प्रसरस्वती ेवीनः हर्यमणम् बृहस्पतिमिन् वृन्दानाहाय दोदया पाचम् विष्णुज्ञस्वतीतारम् च वादिनम् सरस्वती वाजेमेवादिनीवती यज्ञप्रकृधियातुः द्रोदयिक्रीतोनृतानाम् देवम् क्रीतुमतीनाम् यज्ञन्दे सरस्वती महो अन्नः सरस्वती प्रचेत यदि केतुना दिव विश्वाभिरायति आदित्येरन्नो भारादीवक्ष् यज्ञ सरस्वती सहर्द्रैरन्न आवीत् विलोकाहूतावतोभिः सचोटाः नो देवी रमते हेषु धत्ता महादेव्यै च विद्महे ब्रह्म रत्मी च प्रचोदयात् ुमसत्त्वस्य भार्यदेहनाः मातराः आवो जनयथा जनः पक्रवाहतयत्किञ्चितम् मयि यद्वाहमाभि पुद्रोहयद्वारम् अविष्मादीरिमातो हविष्माम् आवीवासति अविष्मा अम् देवो अध्वरो हविष्माम् वस्तु सूर्याः देलीये रागो अपान्नपाद्योगागो व्यूर्तिः कपुन्माहन् वाजुधास्तेनायम् वाजगृम् सप्तशस्त्रिभिः अस्वाभवाच वाजिनाः अपो देवामधोपतेरभ्रन्नो जस्वती राजस्वस्तिताः याभृम् मित्रावरोडा अभ्यभिन् कन्याभिन् रमणायम् नारादीः ्रुपदादीवमु जानस्मिन्नस्नातो वरादिव भूतम् पवित्रे देवाज्यमापः क्रुन्धन् देवीरभिट्टाय मातोः भवन्तु गीतये तय्योर्भिश्रावन्तु नः अपाज्ञेरसमुद्दाय सज्ञो वर्ये अन्तर्गे समाहीतम् अपाज्ञेरसस्तयोरसत्तम्बोः ग्रन्थान्युत्तमम् यमधोमतेन यक्ष्माय यक्ष्मा प्रजाभ्याः नाता मास्ता नाबुद्धीहतामोषादयस्तु विफलाः पुनन्तो मा पितरः सोम्यासः पुनन्तो मा पितामहाः पुनन्तु प्रपीतामहाः पुनन्तो मा पितामहा पुनन्त प्रपीतामहा अवित्रयेन हृतायूषामिश्रमायम् यत्नमै अपघ्नायो अग्रशिपवसा सुवाद्यमिषन्तनः आरे पुनन्तो मा देवजनाः पुनन्तु मनसाधियाः पुनन्त पवित्रेः नगुनी वा सुेण देवदीद्यात् अग्ने यत्तेः पवित्रामस्तिष्यग्नेतानुमन्तरा ब्रह्मदेना गुणागुमा परानस्त्व अद्य न पवित्रेः रवितरवेषणिः यत्पोदादपूमानुमा भ्याम् देवसवित पवित्रे हरेण माम् पूरीः विस्तताः वैश्वदेवी पूरी देव्याघाद्यस्याः गह्यः सन्वामिष्टाः अयावदम् तत्र समाजे वयग्रस्यामवतायीणाम् व्युत्पतिर् मा गुणातु वाग्पजम् मा गुणा तु देवो मातुवितागुणात्तच्छिद्रेण पवित्रे रसूर्यस्य रश्मिभिः तस्य ते पवित्रपते पवित्र इति पवमानम् अथ भूतो विश्वस्य भवानस्य धत्त्री पृथिवी यच्छिवीम् वाहिमेदमहम् बृहस्पते मित्रश्च त्वाचक्षुषास्त्रदीक्षे भूर्भुवस्पद्यौरेव भूम्ना भूमीरिवरिना तस्यास्ते पृथिविदेवै शिभे किमन्नाथमन्नाद्यायाधेतुम् दे। भग्वो देवस्य धीमहि प्रजोदया प्रजा प्रजया आभूयासम् एतदन्ना गे। मस्तदेवा एतदन्नावद्भिप्रजापतेभतेऽन्तरिक्षाय मान्त्रान् विवेकसान् दिग्धो नालान् बभ्रुवपालमान्तरदिशाभ्याः प्रेथिवी च न यमै यज्ञम् मे निक्षता विगुतान्नो भरीमभिः क्यो ना प्रीथिवीनो भवान्क्षताभि यच्छा नः शर्म इति भूतोक्तम् अथ पर्वसोक्तम् ुजीहव मद्या च मृया त्वाश्चे तत्त्वायामि ब्रह्माण सुन्दर्मानस्तदा सा हस्ते च मानो हविद्भिः अहे एलमानो वर्णे हवो द्विरोषज्ञमानहाय प्रमोढी अग्ने वरुणस्य विद्वान् देवत्नहेरो अवयातिष्ठाः ह्नेतमस्व सूचानो विश्वाद्वेधा अग्ने विभ्यस्पते सप्तमो अग्ने ममोधा भवतीने लिक्त्वा अस्याविषो व्यक्त अवयत्वेन अवर्णनो च वर्णेभ्यमाना महेन्दो वर्णनञ्च मध्यमभ्यश्चासाय अतः सर्वे वर्मसोक्तम् अथ अभ्यारोहजपः ध्यायोहस्त खलु प्रस्तोमा धामप्रस्तौतिह यत्र प्रस्तुया तदेतानि च पेदसतोमा सत्यमय तमसोमा ज्योतिर्गमय विद्योन्मा मतङ्गमयेति शयसाः ेति मृत्युर्वा असत्सभृतं मृत्यो अस्मा भृतङ्गमया मृतं वा गुरुत्येवैतसाहतमसोमा ज्योतिगमजेति मृत्युर्वैतमो ज्योतिरभृतं मृत्योन्मा मृतङ्गमया मृतं मा गुर्वित्येवे गयाहनत्योऽस्मा भगमयेति नात्रतिरोहितमिवास्यीतराणि श्रोत्राणि देश्वात्मने नाद्यमा गाजे मानुतेषु वरम् गृणीतयम् कामङ्कामयेतग्नेशेष एवम् विदुर्घातात्मने वा यजमानाय वायङ्कामङ्कामयतेतमागायति तथैतनुगजिदेव नाभैवालोक्यताया आशास्ति यजेवमेतस्सामवेदा नमदप्तोन्नमिदम्बोन्नातोन्नमुद्रे आदियाद्वादशकम् उद्यन्न विभस्वामारोहम् उत्तरान् दिवम् देवः हृद्रोगम् मम सूर्यो हरिमाणम् चाशुनाशयितु रामित्राय नमः निमिषार्थेनैकेन द्वेषशते द्वे तथा सहस्रे च योजनाम नमोऽस्तु कठिननाथाय ह्रीं रवये नमः शिवरूपाज्ञानमहम् तत्त्वनार्दनाकावादे चितिरूपाच्चैश्वर्यम् भवतश्चालोग्यमिच्छामि ह्रूम् सूर्याय नमः कर्मज्ञानखदशकम् नमश्च जीवैति विश्वसर्गाय द्वादशधायो विचरति सत्पादशमूर्तिरस्तुमुदे हृम् भानुवे नमः त्वम् यजुर्दृक्षामस्त्वमागमस्त्वम् वषत्कारः त्वम् विश्वस्त्वम् हंसस्त्वम् भानुपरमहंसश्च ह्रमुखगाय नमः हृजिदोषादिशि दोषा हृजिदोषा येखिलेन्द्रेकदोषाः ताम् पूषा हतदोषादीषदोषा अग्निनादः तु नमः तिमिरमवनेत्रतिमिरम् पटलैवाशेषपटलम् च काचिनबीनिकोषम् कालपितामम निराकुर्यात् राम्यगर्भाय नमः धर्मार्थकाममोक्षगतिरोधिन उग्रवेगतापकराने मन्दीकृतेन्द्रियगणान् गदाङ्गिनाशेति चन्तांशुः ह्रीम् मरीचये नमः येन विनाथन्तिमिरम् जगदे दत्सीकृतबोधम् तन्नलिनी भक्तारम् हस्तारम् आदित्याय नमः यस्य सहस्र धीशो रवीशुरेयोमां सुबिम्बकटः भाषै नक्तमण्डलम् खिले त्रिवजनानि किलाने नलीम् चवित्रे नमः वातारश्मैर्नामत्वद्गोढमहोदरप्रमेहांश्च गृहिणीभगन्तरमुखाम् महाविरोपि न हरसिकाय नमः त्वम् शरणम् त्वम् वादात् पञ्चमिदाम्भवम् तुमाचार्यः त्वम् तादा त्वम् हर्ताद्दानर्कः प्रतीव मम हृहासदाय नमः इत्यार्याद्वादशनम् सदाम्बस्य पुरो नमस्तदाम् परताम् साक्ष्यसमग् सर्वजरोगक्षेश्च स्यादे इति आर्याद्वादशनम् अथ याज्ञवत्योपदिष्टम् सूर्यकवचम् याज्ञवत्य उवाच मुनिषा अर्दूल सूर्यश्रकवदम् शुभम् शरीरारोग्यदम् दिव्यम् सर्वदौहाज्यदायकम् देदीप्यमाननुकुटम् स्फुरम् मकरकुण्डलम् ध्यात्वा सहस्रकिरणम् स्तोत्र मे तपि उदीरयेते शिरो मे भास्करः ललाटम् मे नेत्रे दिनमणिष्पातु श्रवणम् वासवेश्वरः घ्राणम् धर्मघृणिष्पातु बलनम् वेदपाहनः जिह्वाम् मे मानुदःपादौ कण्ठम् मे सुरबन्दितः स्कन्धौ प्रभादरः पादौ जनप्रियः पातु पादौ द्वादशात्मा सर्वाङ्गम् सकलेश्वरः सूर्यरक्षात्मकम् स्तोत्रम् लिखित्वा भूर्जपत्रके दधाति यः करे तस्य वशकाः सुस्नातो यो जपेति सम्यगि योधीते स्वस्थमानसः रोगमुक्तो दीर्घायुः सुखम् पुष्टिम् च विन्दति इति सूर्यकविचम् अथ आयुष्यसूक्तम् यो ब्रह्मा ब्रह्मण उच्चहारप्राणेश्वरकृत्यवासात् पिनाके ईशानेवस्वनामज्जधातु पत्मीजहोमिष विषाभृतेन विभ्राजमानशरीरस्य मध्याद्योजमानो धर्मरुचुर्य आगाद प्रपुणक्तिपाषादपुणस्य घोरादिषायषेण भृतमत्तु देवः ब्रह्मज्योजद्ब्रह्मपत्न्येषु पद्मय्यमादधातुरूपम् जयन्तम् सुवर्णरम्ब्रहमत्तमट्जन्तमाविषेभयानो घृतेन श्रियम् वक्मे होमरामम् ग्राङ्गाम् शीन्द्रियाङ्गसेनेत्य राहुः ताम् निद्याम् ब्रह्मयोगिङ्गरूपाम् हायचेतत्वयामो घटेन व्याख्यायम् यत् सर्वयोऽन्यस्य योऽन्यसहस्रशो विश्वरूपादिरूपा सोनवस्य पदयस्य उच्चयामेनोभितविर्ति सन्ता दिव्यारिणा बहुदोधाः पुराणात्मन्तु वीराणि एभ्यो दो बहुधा क्रियमानप्रजाग्नीषो मो तीरान् एकपुरस्ता चेदम् बहुवयसो बहुमश्च गोपालः इमप्ये जिभूमम् सान्वराय समोत्तु देवः पुत्राणादित्याभोन्यवाग्यश्च विजेकृश्च विश्वान् भ्रुवम् सत्पाद्य स्वामिलो सर्वान्वम् प्रास्वायिष्यामयामशश्व विष्णोपन्मान्तमशन्मयच्छ सहत्या पटे धारामसत्व उत्तम् विष्णुदे अक्षितम् नूनमाप्याय हरिभो वर्धमानः यदास्तो दृढोमहि गोत्रा रुजाहि भूरिष्टबाढोते श्याम ब्रह्म प्रावाह्यम् युष्मानग्ने हविो घृतो धृतयोगो निी घृतम् आयुष्टो दशदयमज्ञन्वरेऽण्यः पुनश्चे प्राणायातिपरायुषन् स्वामि युष्मानग्ने हविषादृधानीको घृतयो ओनिवेहि घृतम् पी स्वामधुचारुज्यम् पिते वाक्षराजुवा ओम् पक्षते